वितद्रुर्झल्लिबभ्रू च उद्धवोऽथ विदुरथः वसुदेवोग्रसेनौ च सप्तैते मन्त्रिपुङ्गवाः प्रसेनजिचयमलो राजराजगुणान्वितः कोमणिर्यस्य निःस्रवते बहु स त्वं सदा भरतसत्तमा क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारता दुर्योधनं शांतनवं द्रोणं द्रोणायनीं कृपम् कर्णं च शिशुपालं चारुक्मिणं च धनुर्धरम् एकलव्यं द्रुमं श्वेतं शैव्यं शकुनिमेव च एता जित्वा सङ्ग्रामे कथं शक्नोषितं कृतम् अथैते गौरवेणैव न ना योत्स्यन्ति नराधिपाः न शक्यं जरासन्धे जीवमाने महाबले राजसूयस्त्वया वप्तुमेषा राजन्मतिर्ममा तेन रुद्धाहि राजानः सर्वे जित्वा गिरिव्रजे कन्दरे पर्वतेन्द्रस्य सिंहेनेव महाद्विपाः स हि राजा जरासन्धो यक्षुर्वसुधाधिपैः महादेवं महात्मानमुमापतिमरिन्दमा ध्यतपसोऽग्रेण निर्जितास्तेन पार्थिवाः प्रतिज्ञायाश्च पारं स गतः पार्थिव सत्तमा स हि निर्जित्य निर्जित्य पार्थिवान् पृतनागतान् पुरमानीयबद्ध्वा चकारपुरुषव्रजम् वयं चैव महाराज जरासन्धभयात्तदा मथुरां सम्परित्यज्य गता द्वारवतीं पुरीं यदि त्वेन महाराज यज्ञं मोक्षाय जरासन्धवधाय समारम्भो न शक्योऽयमन्यथा कुरुनन्दना राजसूयश्च कार्त्स्न्येन कर्तुमतिमतां वरा जरासन्धवधोपायश्चिन्त्यतां भरतर्षभा तस्मिन् जिते सर्वं सकलं पार्थिवं बलम् मतीराजन गते नघ यक्ष स्वयं हे तो इति श्री महाभारते सभा सभापर्वणि राजपर्वणि कृष्णवाक्ये चतुर्दशो